यत्र राज्ञाह्य ह्यलोकस्य प्रेषणम् पाण्डवान् प्रति श्वोभाविनि महायुद्धे दौत्येन कृतवान् प्रभुः रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च एतत् सुबहुवृत्तान्तम् पञ्चमम् पर्वभारते उद्योगपर्वनिर्दिष्टम् सन्धिविग्रहमिश्रितम् अध्यायानाम् शतम् प्रोक्तम् षडशीतिर्महर्षिणा श्लोकानाम् षट्सहस्राणि तावन्त्येव शतानि च श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना व्यासेनोदारमतिना पर्वण्यस्मिंस्तपो धनाः अतः परम् विचित्रार्थम् भीष्मपर्व प्रचक्षते जम्बूखण्डविनिर्माणम् यत्रोक्तं सञ्जयेनः यत्र सैन्यं सैन्यम् विषादमगमत्परम् यत्र युद्धमभूद्घोरम् दशाहानिसुदारुणम् कष्मलम् यत्र पार्थस्य वासुदेवो महामतिः मोहजम् नाशयामास हेतुभिर्मोक्षदर्शिभिः समीक्ष्याधोक्षजः क्षिप्रम् युधिष्ठिरहिते रथः रथादाप्लुत्यवेगेन स्वयम् कृष्ण उदारभीः प्रतोदपाणिराधावद्भीष्मम् हन्तुम् व्यपेतभिः वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः शिखण्डिनम् पुरस्कृत्य यत्र पार्थो महाधनुः विनिघ्नन् रथात भीष्ममपातयत् शरतल्पगतश्चैव भीष्मो यत्र बभूवः षष्ठमेतत्समाख्यातम् भारते पर्व विस्तृतम् अध्यायानां शतम् प्रोक्तम् तथा सप्तदशा पंच श्लोकसहस्रा सख्य शता श्लोक चुराशीतिर पर्विर्ति व्या वेद विदुषा सख्याप द्रोणपर्वतुवृत्ता मुच्य सैनापत्येषिक्थ यचार्य प्रतापवा